श्रीहरये नमः अथ अष्टमोऽध्यायः ब्राह्मण उवाचा सुखमैन्द्रियकं राजन् स्वर्गे नरक देहिनां यत्यथा दुःखं तस्मान् नेचेत ग्रासं सुमृष्टं विरसं महांतं स्तोकमेव वा यदृश्चैव आपतितं ग्रेसेत् आजगरोत्क्रियः स गीताहानि भूरिणि निराहारोऽनुपक्रमः यदि नोपनमेद्घ्रासो महा अहिरिवधिष्ठभो ओजः स को बलयुतं बिप्रदेहमकर्मकं सायानो वीतनिद्रश्च नेखते इन्द्रियवानपि मुनिप्रसन्तगम्भीरो दुर्विगाह्यो धुरत्ययहान् अनन्तपारोह्यशोभ्यस्तिमितो द इवार्णवहान् समृद्धकामो हीनो वा नारायणपरो मुनिः नोत्सर्पेतनः सुष्येत सरिद्भिरिवसागरः दृष्ट्वा श्रियं देवमायां तद्भावै अजितेन्द्रियः प्रलोभितः पतञ्जन्धे योषित्किरण्य आभरणाम्भराति प्रलोभिदात्मा ह्युपभागभुत्या पथङ्कवन्नस्यति नष्टदृष्टिः स्तोकं स्तोकं ग्रेसेद्ग्रासं देहो वर्तेत यावता गृहाण किं सन्नातिष्ठेत् प्रत्यम् माधुकरिमुनिः अणुभ्यश्च मगद्भ्यश्च शास्त्रेभ्यः नरः सर्वतत्सारमाधत्यात् पुष्पेभ्य सायन्तनं स्वस्थनं वा न सङ्गृह्णीत भिक्षितम् पाणिपात्रो धरात्रो मक्षिके वा न सङ्ग्रहे सायन्तनं स्वस्तनं वा न सङ्गृह्णीत भिक्षुकः महिक्षायिव सङ्गृह्णन् सखते विनश्यते ी युवतीं भिक्षुर्न स्पृश्ये दारवीमपि स्पृशन् करीवभ्येत करिण्या अङ्गसङ्गतः नादिकच्छेत् सहन्येत गजैरन्यैर्गजो यत न नोपभोग्यं च दुःखसञ्चितं भुङ्क्ते तदभितच्छान्यो मधुहेवार्थविन्मधो सुदुःखो भार्जितैर्वित्तैरासानां गृहार्षिषः मधुहे वाग्रतो भुङ्क्ते यतिर्वै गृहमेदिनां ग्राम्यगीतं न शृणुयात् यतिर्वनचरक्वचेत् शिक्षेत हरिणाद्बद्धान् मृगयोर्गीतमोहितात् नृत्यबाधित्र गीतानि जुषन् ग्राम्याणि योक्षिता आसां ग्रीडनगो वश्य रुष्यशृङ्गो मृगीसुधः जिह्वा जनो रसविमोहितः मृत्युं रुच्चत्य सद्बुद्धिर् मीनस्तु इन्द्रियाणि जयत्या सो निराहारमनीक्षिणः वर्जयित्वा तन्निरन्नस्य वर्ध ते तावज्जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् न जयेद्रसनं यावज्जिद्ध न जयेद्रसनं यावज्जितं सर्वं जिते रसे पिङ्गळानामवेश्यासीद् विदेहनगरे पुरा कान्तं संकेत उपनेष्यति अभूत्काले बहिर्द्वारि बिभ्रतीरूपमुत्तमं मार्ग आगच्छतो वीक्ष पुरुषान् पुरुषर्षभान् ताञ्चुल्गतान् वित्तवधक् कान्तान् आगतेषु अपयातेषु सा संकेतोपजीविने अप्यन्यो वित्तवान् कोऽपि मामुपैशति भूरिदः एवं दुरासया ध्वस्तनिद्राध्वार्यवलम्भते निर्गच्छन्ती प्रविशति निशीतं समबध्यत तस्या वित्ता च या श्यद्वक्त्राया दीनचेतसः निर्वेदपरमो यज्ञे चिन्ता हेतुःसुखावकः तस्या निर्विण्णचित्ताय गीतं शृणु यता मम निर्वेद आशा पाशानां पुरुषस्य यथा ह्यसि ह्ये न ह्यङ्गा जातनिर्वेदो देहभन्तं जिहासते यथाविज्ञानरहितो मनुजो ममतां नृप पिङ्गलो वाच अखो अहोमयी मोकविततिं पश्यत अभिजितात्मनः यकान्तातसतः कामं कामये येन भालिसा सन्तं समीपे रमणं रतिप्रथं वित्तप्रथं नित्यमिमं विहाय अकामधं दुःखभयाति शोकमोहप्रदं तुच्छमखं भजे ज्ञान् अहोमयात्मा परितापितो वृथा साङ्केत्य वृद्ध्याति विगर्ह्य वार्त्यैणान्नराधार्थदृशोऽनुचोश्चात् क्रीतेन वित्तं रतिमात्मनेच्छति यतस्तिभिर्निर्मितवंशवंश स्थूणां त्वचारो मन कैपि नद्धम् शरत्नवद्वारमगारमेतत् विण्मोत्रपूर्णं मधुपैतिकान्य विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीहे यान्यमिच्छन्त सत्यस्मात् आत्मधात् काममच्युतात् सुहृदः प्रेष्ठतमो नाथ तं विक्रियात्मनैवाघं रमेणेन यथा कियत्प्रियं ते व्यभजन् कामाये कामधा नराः भार्याय देवा वा कलविद्रुताः नूनं मे भगवान् प्रीतो विष्णो केनाभिकर्मणा निर्वेदोऽयं दुराशाय यन्मे जातस्तु कावकः मैवं शूर्मन्दभाग्याय क्लेशा निर्वेदहेतवः ृत्य पुरुषः समम् तेनो वक्रतमादाया शिरसा ग्राम्यः सङ्गताः त्यक्त्वा दुरासा शरणं व्रजामि धमधीश्वरं सन्तुष्टा श्रद्धत्येत यथा लाभेन जीवते विकरामि अमुनैवाघम् आत्मना रमणेन वये संसारकूपे पतितं विषयर्मुक्षिदेक्षणं ग्रस्तं काला हि नात्मानं आत्मैव ह्यात्मनो गुप्ता निर्विद्येत यदा किलात् अप्रमत्त इदं पश्येद् ग्रस्तं काला हि ब्राह्मण उवाच एवं व्यवसितमतिर्दुराशां कान्तर्षजां चित्वोपशमम् आस्थाय सह्यामुपविवेशसाम् आमाहि परमं दुःखं नैराश्यं परमं सुखं यथासिञ्चिद्य कान्तासां सुखं सुष्वापपिङ्गला इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराज की जय